हरि ओम् श्री सीता रामचन्द्रभ्यां नमः अथ श्रीमद् वाल्मीकि रामायणे युद्धकाण्डे एकसप्ततितमः अतिकायस्य घोरम् युद्धम् लक्ष्मणेन तस्य वधश्च स्वबलं व्यथितम् दृष्ट्वा तुमुलम् लोमहर्षणम् धातृश्च नेतान् दृष्ट्वा शक्रतुल्य पराक्रमम् पितृव्यौ चापि सन्दृश्य स्वरे सन्निपातितौ युद्धोन्मत्तम् च मत्तम् च धातरौ राक्षसोत्तमौ चुकोप च महातेजाय ब्रह्म दत्तवरुयुधि अतिकायो दृतङ्गासु देवदानवदर्पः स भास्कर सहस्रस्य सङ्घातमिव भास्वरम् रथम् आरुह्य चक्रि अभि दुद्राववानरान् स विस्फार्य तदा चापम् किरीटे मृत्यकुण्डलः तेनसिंहप्रणादेन नाम विश्रावणेन च जाशब्देन च भीमेन त्रासयामास वानरान् ते दृष्ट्वा देहमाहात्म्यम् कुम्भकर्णोऽयमुत्थितः भयाता सर्वे संश्रयन्ते परस्परम् ते तस्य रूपमालोक्य यथा विष्णो श्रीविक्रमे भयाद्वा नरयोसे विद्रवन्ति ततस्ततः पेतिकायं समासाद्य वानरामूढ चेततः शरण्यं चरणं जग्मो लक्ष्मणाग्रहम् जमाहवे ततोतिकायं काकुत्सौ रथस्थं पर्वतोपमं ददर्श धन्विलम् दुरात् गर्जन्तं कालमेघवेत् स तं दृष्ट्वा महागायं राघवत्तु सुविस्मितः वानरान् सान्त्वयित्वा च विभीषणम् उवाच कोऽसौ पार्वतसङ्काशो धनुष्मान् हरिलोचनः युक्ते ह यः विशाले स्यने स्थितः य एष सुदीघ् प्रादोम अर्चिम्भ्भ वृद भाति भूत महेश्वर कर जिह्वा प्रकाशा येषो भी विराजते आवृतो रथशक्ति विद्युदीरिवत यदे धनुषि चाच सज्जा हेम पृष्ठाशोभ रेष्ठ शक्रचापमिवामरम् य एष रक्षचार्दूलो रणभूमिं विराजयन् अभ्येति रथीनां श्रेष्ठो रथे न दीत्यवर्चसा प्रतिष्ठेन शृङ्गप्रतिष्ठेन विराजते सूर्यरश्मि प्रभे बाणे दिशो दश विराजयन् त्रिनम् हेम पृष्ठम् अलङ्कृतम् शतक्रतुधनुप्रख्यम् धनुश्चास्य धनु विराजते सध्वज स पदाकश्च सानुकशो महारथः चतुषादिसमायुक्तो मेघस्तनि तन्नित्वनः विंशति दशचाश्चोच तूणास्य रथमास्थितः कार्मुकाणि च भवमानि च पाश्वस्थो, जाच कािंगश्वस्थ प्रदीप्त पार्शो चतुर्त सुचितौ रशात रक्तकंडगुण धीरो, महापर्वत सन्नि काले का मेघस्थ इव भास्कर काञ्चनाङ्गदनद्भाभ्याम् भूयाभ्याम् एष शोभते शृङ्गाभ्याम् इव तुङ्गाभ्याम् हिमवन्तण्डलाभ्याम् च भाति वक्त्रम् सुभीषणम् पुनर्वस्वन्तर्गतम् परिपूर्णो निशाकरः स राजपुत्रेण रामेणामित तेजसा आचचक्षे महातेजा राघवाय विभीषणः दशग्रीवो महातेजा राजा वैश्रवणानुजः भीमकर्मा महात्मा रावणो राक्षसेश्वर है तस्यासीत् पुत्रो रावण प्रतिमो वृद्धसेवी श्रुतिधर सर्वास्त्र विदुषाम्बरः अश्वृष्ठे नागपृष्ठे खड़गे धनुषिर्जणे वेदे सां चे नए मंत्रे संहूं भवति लंकाय तनयम धान्य मलि अति कायम विदु ए ब्रह्म तपस भावत्मना अस्राणि चाप्यप्राप्तानि त्रिपवश्च पराजितः सुरासुरैरवद्य दत्तमस्मै स्वयं भुव एतच्च कवचम् दिव्यम् रथश्च रवि भास्वरः एतेन शतशो देवा दानवाश्च पराजितः रक्षितानि च रक्षासि यक्षाश्चापि निशोधितः वज्रं भिदं येन बाणेरिन्द्रस्य धीमतः पाशे सुलीलराजस्य युद्धे प्रतिहतस्तथा एशोतिकायो बलवन् राक्षसानाम् अथर्षभ स्वरावणसुतो धीमान् देवरानवदर्पः तदस्मिन् क्रियतां यत्न क्षिप्रं पुरुष पुरा वा नयतिसायकै, ततोतिकायो नयति ततो बलवान् प्रविश्य हरिवाहिनीं विस्फारयामास धनुः न नाद च पुनः पुनः तं भीम वपुषं धृष्ट्वा रथस्थं रथिनां वरम् अपि कुमुदो द्विविधो मैन्दो नीलय शरभ एव च पादपै समभिद्रवन युगप त्वमभिद्रवन् तेषां वृक्षांश्च शैलाश्च शरैः कर्णकभूषणे अतिकायो मातेजा चिच्छेदास्त्र विदाम्बरः ताश्चैव सर्वान्त हरिन् चरैः सर्वा विव्याधाभिमुखान् भी सङ्ख्ये भीमकायो निशाचरः तेर्दिता बाणवर्षेण भिन्न गात्रा पराजितः न शे कुरतिकायस्य प्रतिकर्तुम् महाहवे तत्सैन्यं हरिवीराणां त्रासयामास राक्षसः मृगयूथम् विवक्रुद्धो हरिह वनदर्पितः स से राक्षसेन्द्रो हरियूथ मध्ये नायुध्यमानं निजघानकि उत्पत्य रामं स धनुकलापि सगर्वितं वाक्यमिदम्बभे भशे, स्थितोऽहं चरसापणि न प्राकृतं कञ्चन योधयामि यस्यापि शक्तिर्व्यवसाययुक्तो ददातु मे शीघ्रमिहाद्य युद्धम् तत्तस्य वाक्यं ब्रवतो निशम्य चुकोपसौमीत्रि अमित्र हन्ता अमृष्यमाणश्च समुत्पत् जग्रह चापं च तथा स्मयित्वा क्रुद्ध पुरस्तादतिकायस्य विचकर्ष महद्धनुः पूरयन्त महिं सर्वाम् आकाशं सागरं दिश जाष्यब्दु लक्ष्मणस्योग्र त्रासयन् रजनेचराम् सौमित्रे चापि निर्घोषम् श्रुत्वा प्रतिभयं तदा विधिस्मीये महतेजः राक्षसेन्द्रात्मजो बलि ततातिकाय कुपितु दृष्ट्वा लक्ष्मणमुत्थितम् आदाय्य निशितम् बाणम् इदम् वचनमब्रवीत् बालस्तमस्तौमित्रे विक्रमेश्व विचक्षणः गच्छ किं काल सङ्काशम् मां योधयितुमिच्छसि न हि मद्बाहुसृष्टानाम् बाणानाम् हिमवानपि सोढुम् वेगम् अन्तरिक्षमथो महि सुखप्रसुप्तम् गालाग्निं विबोधयितुमिच्छसि न्यस्य चापं निवर्तस्व प्राणान् न जि मद्गतः अथवा तं प्रतिस्तब्धौ न निवर्तितुमिच्छसि शिष्टपराणां स्वरीत्यज गमिष्यसि यमक्षयम् पश्य मे निशिताम्बाणाम् त्रिपुरर्प निषूदनान् ईश्वरायुधसङ्काशान् तप्त काञ्चन भूषणाम् एष ते सर्प सङ्काशो बाणपास्यति शोणितम् मृगराज इव क्रुद्धो नागराजस्य शोणितम् इत्येवमुक्त्वा संक्रुद्ध शरम् धनुषि सन्दधि कृत्वातिकायस्य वच स गर्वितं संयति राजपुत्र सङ्कुरु सञ्चुकोप इति बलो चततो उवाच्य वाक्यञ्च ततो महार्थम् न वाक्यमात्रेण भवान् प्रधानो न कथनाथयत् पुरुषाः भवन्ति मयि स्थिते धन् विनिबाणपाणौ निदर्शय स्वात्मबलम् दुरात्मन् कर्मणा सूचयात्मानम् न विकथितुमर्हसि पौरुषेण तु यो युक्तः स तु शूर इति स्मृतः सर्वायुधमायुक्तो धन्वी तं रथमास्थितः शरैर्वा यदि वाप्यस्त्रै दर्शयस्व पराक्रमम् ततश्रस्ते निशितैः पापयिष्याम्यहं शरैः मारुते कालसम्पक्वम् वृन्तात्तालफलम् यथा अद्य ते मामका बाणा तप्त काञ्चन भूषणः पाष्यन्ति रुधिरम् गात्रात् बाणशल्यान्तरुत्थितम् बालोऽयमिति विज्ञाय न चावज्ञातुमर्हसि बालो वा यदि वा वृद्धो मृत्युम् जानीहि संयुगे बालेन विष्णुना लोका प्रियक्रान्ता त्रिविक्रमै लक्ष्मणस्य वच श्रुत्वा हेतुमत् परमार्थवेत् अतिकाय प्रचुक्रोध बाणं चोत्तममादरे ततो विद्याधर भूताय दैवादैत्या महर्षय गुह्यकाश्च महात्मान तद्युद्धं द्रष्टुमागतम् तोय कुपिते चापमारोप्य सायकम् लक्ष्मणाय प्रतिक्षेप संक्षिपन्निवचामरं तम् आपतन्तं शरमाशी शरमाशीविजोपमम् अर्धचन्द्रेण चिच्छेत् लक्ष्मण परवीरः तं निकृत्तं शरं दृष्ट्वा कृत्सभोगमिवोरघम् तिकायो भृशं क्रुध पञ्चबाणान् समादधे तांश्च प्रतिक्षेपय लक्ष्मणाय निशाचर तान् प्राप्तां चितै वाणी चिच्छेदभरतानुजः स तान् लक्ष्मण परवीरः आददे निशितं बाणम् ज्वलन्तम् इव तेजसा य धनुश्रेष्ठी योजयामास लक्ष्मणः विचकर्ष च वेगेन विससर्ज च पूर्णायत विसृष्टेन शरेण नत पर्वणा ललाटे राक्षसश्रेष्ठम् अजघान स वीर्यवान् स ललाटे शरो मग्न तस्य भीमस्य राक्षसः ददृशे शोणिते नाक्तः पन्न केन्द्र युवाचले राक्षसप्रचकम् पेथ लक्ष्मणेषु प्रपीडितः रुद्र बाणः सम्भोरम् यथा त्रिपुरगोपुरम् चिन्तयामः स चाश्वस्य विमृश्य च महाबलः साधुबाणनिपातेन श्लाघनीयोऽसि मे विधाय एवं विधार्यास्यं विनम्य च महाभुजो स्वरथोपस्थमास्थाय रथेन प्रचारि पञ्च सप्तेति सायकान् राक्षसर्ष भे आददे सन्दधे चापि विचकर्षोत्सर्ज च ते बाणाकालसंघाषा राक्षसेन्द्र धनुश्च्युता हेमपुङ्खार विप्रक्ष्या चक्रुर्दीप्तम् विवाम्बरम् ततः तान् राक्षसोत्सृष्टान् चरोघान् राघवानुजः असम्भ्रान्तः प्रचच्छेद निशितैः बहुभीचरैः ससंधाय महातेजाय तम्बाणम् सोऽसृजेत् तेन सौमित्रिमायान्तम् अजघन स्थानान्तरे अतिकाय ताडितो युधि वक्षसि शुश्राव रुधिरं तीव्रम् मदम् मत्त इव तदात्मानं विशल्यं स जग्राह चरं तीक्ष्णम् अस्त्रेणापि समाददे अग्नेयेन तदास्रेण योजयामासयकम् स जज्ज्वाल ददा बाणो धनुष्यस्य महात्मनः अधिकायोति तेजस्वी रौद्रम् समाददे तेन बाणं भुजङ्गाभम् हेमपुङ्खम् अयोजय तदस्त्रं जलितम् घोरम् लक्ष्मण शरमाहितम् अतिकायाय चिक्षेप कालदण्डम् विवान्तकः आग्नेयास्त्राभिसंयुक्तम् दृष्ट्वा बाणम् निचाचरः उत्सर्ज तदा बाणम् रौद्रम् सूर्यास्त्रयोजितम् तौ भावम् वरे बाणौ अन्योन्यम् मही अभि तेजसा सम्पदीप्ताग्रह क्रुद्धौ इव भुजङ्गमौ त्वन्योन्यं विदीह वेत तु पृथिवीतले निरचिषौ भस्मकृतौ न भ्राजेते चरोत्तमौ तौ उभौ दीप्यमानौ स्म न भ्राजेते महीतले ततो ता टीकाय संक्रुद्ध स्वाष्टमैषीकमुत्सृजत् ततश्चिच्छेद सौमिस्त्री अस्त्र मेन्द्रेण वीर्यवाम् ऐशिकं निहतं दृष्ट्वा कुमारो रावणात्मजः याम्येनास्त्रेण सङ्क्रुद्धो योजयामास सायकम् ततस्तदस्रं निक्षेप लक्ष्मणाय निशाचर वायव्येन तदस्त्रेण निजघान स अथैनं शरधाराभि धाराभिरिवतो धारा यद् अभ्यवर्षत संक्रुधो लक्ष्मणो रावणात्मजम् तेति कायं समासाद्य कवचे वज्रभूषिते भग्नाग्रशल्यासहसा पेतुर्बाणामैतले तन्मोघानभि सम्प्रेक्ष्य लक्ष्मण परवीरः भ्यवक्षत बाणानाम् स्रेण मायशः सदृश्यमाणो बाणोघैः अतिकायो महाबलः अवध्य कवचः राक्षसो नैव विव्यथे शरं चाशी विशाकारम् लक्ष्मणाय व्यपाश्रयत् सतेन तेन विद्ध सौमित्री मर्मदेशे शरेणः मुहूर्तमात्रं निस्सन्यो ह्यभवेत् शत्रुतापनः तदसंज्ञामुपालभ्य चतुर्भि साहायकोत्तमे निजघन हयान्सङ्ख्ये सारथिं च महाबलः धनस्योन्मथनं कृत्वा चरवर्षे यदि नमः असम्भ्रान्तः सौमित्री तान् ममोच लक्ष्मणो बाणाम् वधार्थं तस्य रक्षसः न शशाकरुजं कर्तुं युधि नरोत्तमः अथैनम् अभ्युपागम्य वायुर्वाक्यम् उवाच ब्रह्म दत्तावरो ये च अवध्य कवचावृतः एष वध्यो हि नान्यथा अवध्य एष अन्येषाम् अस्त्राणां कवची बली ततस्तु वायोर्वचनम् निशम्य समादधे बाणमसौग्रवेगम् तद्ब्राह्ममस्त्रं सहसा नियुज्य तस्मिन् वरात्रे सौमित्रिणा बाणवरे चिदाग्रे दिश चन्द्रार्क महाग्रहश्च नभश्च तत्र ररासचोर्वी तं ब्राह्मणोऽस्त्रेण नियुज्य शरम चेरं सपदूतकल्पम् सौमित्रीन्द्र ऋसुतस्य धस्य स्वसर्जवं युधि वज्रकल्पम् तं लक्ष्मणोत्सृष्ट विवृद्ध वेगम् समापतन्तं श्वशनोग्रवेगम् सुपर्णवोत्तमचित्रपुङ्खम् तदातिकायै समरेदर्शे तं प्रेक्ष्यमाणे ससातिकायो जघनबाणै निशितै अनेकैः ससायकै तास्य सुपर्णवेगै तथातिवेगेन जगाम पार्श्वम् तं मार्गतं प्रेक्ष्य तथाति गायो बाणं प्रदीप्तान्तककालकल्पम् जघानचक्र्यूष्टि गदाय कुठारी शूलैशरी चापविपेन्न चेष्टे तान्यायुधान्यद्भुतविग्रहाणि मोघानि कृत्वा शुचरोग्निदीप्तये गृह्य तस्यैव किरीट जुष्टम् तदा शिकायस्य शिरो जिरस चिरत्राणम् लक्ष्मणेषु प्रमर्दितम् पपात स स भूमौ तुङ्गम् भीमवतो यथा तं भूमौ पतितं धृष्ट्वा विक्षिप्ताम्बरभूषणम् बहुव्यथिता सर्वे हत शेष निशाचरा मुख दीना प्रहार जनित्र विन दुच स्वीर स्व ततरी तम जाता निरपेक्षा निशाचरा मुखा द्रवन्तो नायके हते प्रहर्षयुक्ताय भवतु वनर प्रफुल्लपन्न प्रतिमाननासर अपूजयन् लक्ष्मणमीच्च भागिनम् अतोरिपौ भीमबले दुरासरे अतिबलमतिकाय मभृकल्पम् विधि विनिपात्य स लक्ष्मण प्ररुच रितमथ दास रामपाश्वम् कपि निवहैश्च सुपूजितो जगाम इच्छाशे श्रीमद् रामायणे वाल्मीके अधिकारे युद्धकाण्डे एकसप्ततितमसर्गे वीता रामचन्द्रार्वणमस्तु